हरि ओम् अथ श्रीमद्देवी महापुराणे श्रीमद्देवी महात्म्ये तृतीयोऽध्यायः सूत उवाच अथेतिहासम् अन्यच्च शृणुध्वं निषत्तमः देवी भागवतस्य स माहात्म्यम् यत्र गीयते एकदा कुम्भयोनिस्तु गत्वा कुमारम् अभ्यस्य पप्रच्छ विविधा कथाः, स तस्मै भगवान् स्कन्दः कथया मास भूरिश दानतीर्थव्रतादीनां महात्म्योपचिता कथा वाराणस्याश्च माहात्म्यं मणिकर्णी भवन्त गङ्गायाश्चापि तीर्थानां वर्णितं बहुविस्तरम् श्रुत्वाथ स मणिप्रीत कुमारम् भूरि वर्चतम् पुनः पप्रच्छ लोकानाम् हितार्थम् कुम्भसम्भव अगत्य उवाच भगवन्तारकाराते देवी भागवतश्च तु माहात्म्यम् श्रवणे तस्य विधिम् चापीवनप्रभो देवी भागवतम् नाम पुराणम् परमोत्तमम् त्रैलोक्य जननी साक्षात् गीयते यत्र शाश्वतीकन्द उवाच श्रीभागवतमाहात्म्यं को वक्तुं विस्राश्रमः शृणु सङ्ख्ये पतो ब्रह्मन् कथयिष्यामि साम्प्रतम् या नित्या सुच्चिदानन्दरूपिणी जगदम्बिकार साक्षात् समाश्रिता यत्र भुक्तिमुक्ति प्रदायिनी तद्वाङ्मयी मूर्ति भागवते मुने पठनाश्रवणाद्यस्य न किञ्चिद् दुर्लभम् आसीद्विवत्सदः पुत्र श्रद्धदेव इति श्रुतः सोनपत्युः क्रोदिश्चिम्बसिष्ठानो मतो नृप होतारम् प्रार्थयाम सु श्रद्धार्थयितामनो कन्या भवतु मे ब्रह्मन् तथोपायो विधीयताम् मनसा चिंत कन्या होता कन्याम्बेवाजुहो धी तद्व्यभिचारेण कन्याहिलानामवजाभवेत् अथ राजा सुमृष्ट्वा प्रोवाच्च विमना गुरुम् कथं सङ्कल्पवैषम्यम् इह जातम् प्रभूतव तत् श्रुत्वा स निर्दध्यो ज्ञाता होतुर्व्यतिक्रमम् ईश्वरम् शरणम् यात इलाय्या पुंस्वकाम्यया मुनैस्तप्रभावाच्च परेशानुगृहात् तथा पश्यताम् सर्वलोकानाम् इला पूर्वशताम् गुरुणा कृतसंस्कार सुुम् नोऽ मनसुतः निधिर्बभूव विद्यानाम् सरितामिव सागरः अथ कालेन शुद्ध्युम् न तारुण्यम् समवाप्य च प्रभयार्थम् मनम् यातो हयम् आरुह्य गच्छन् बहु दैवादधस्तात् हेमाद्रे वनं ययो कस्मिंश्चित् समये यत्र भार्यपर्णया सह हरमद्देवदेवस्तु शङ्करो भगवान्मुदा तदा तु मुनये तत्र शिव दर्शनलालतः अजग्मु रथतान् दृष्ट्वा गिरिजा व्रीडिता भवेत् रममाणो ततो दृष्ट्वा गिरीशौ संशितव्रतः निवृत्ता मुनयो जग्मु वैकुण्ठनिलयं तदा प्रिया या प्रियमन्विच्छन् शिवोऽ्यम् शशापः अद्यारभ्य विषेद्योत्र उपमान् ज्योषीद्भवेदिति तत्र आरभ्य पुरुषा वर्जयन्ति तत्र प्रविष्ट सुद्युम्नो बभूव प्रमदोत्तमात्रिभूताननुगान् नश्वम् बडवाम् वीक्ष अथ सा योषा विचार वने एकदा सा जगामाथ बुधस्याश्रमसन्निधौ दृष्ट्वा तां चतुरसर्वाङ्गीम् पिनोन्नतपयोधराम् बिम्बोष्ठिम् कुन्ददशणां सुमोखिमुत्पलेक्षणाम् अनङ्गश्रविद्धाङ्ग चकमे भगवान् बुध सा पीतं चकमे सुभ्रुकुमारम् सोमनन्दनम् तदत्तस्याश्रमे वासीत् रममाणा बुधेन स अथे काले न केता पुरूरवसमात्मजम् स तस्याम् जनयामास मित्रावरुणसम्भव अथ वर्षेषु यातेषु कदाचित् सा बुधाश्रमे स्फुत्वा स्वम् पूर्ववृत्तान्तम् दुःखिता निर्जगामः गुरोरथाश्रमम् गत्वा वसिष्ठस्य प्रणम नैवेद्यवृत्तम् चरणम् ययो पुंस्तम् वसिष्ठो ज्ञानवृत्तां तु गत्वा कैलासपर्वतम् सम्पूज्य शम्भुं तुष्टाव भक्त्या परमयायुतः वसिष्ठ उवाच नमो नमः शिवाय सुशङ्कराय कपर्दिने गिर्यार्धाङ्गदेहाय नमस्ते चन्द्रमौलये गृढाय सुखदात्रे ते नमः कैलासवासिने नीलकण्ठाय भक्तानां भुक्तिमुक्तिप्रदायिने शिवाय शिवरूपाय प्रपन्न भयहारिणे नमो वृष भाहाय शरण्याय परात्मने, परात्मे ब्रह्म विष्णश रूपा सर्गस्थीतिलय नमो देवादेवाय वरदा पुरार्यज्ञा यजता फलदात्रे नमो नम गाधराय सूर्यंदुशिखी नेत्रा ते नम एवंस्तुतः स भगवान्त्र दुरासे जगत्पतिः रुजारूढुम् विकोपेतः कोटिसूर्यप्रभसङ्कर्ष श्रीनेत्र चन्द्रशेखर प्रणतम् परितुष्टात्मा प्रोवाच मुनिषत्तमम् श्रीभगवान्वाच वरं वरय्य विप्रशयते मनसि वर्तते इत्युक्तः सम्प्रणम्य पुंसम् अभ्यर्थयन्मुनिः अथ प्रसन्नो भगवान् उवाच मुनिषत्तमम् मासं पुमांस भविता मासं नारी भविष्यति इति प्राप्य वरं शम्भो मर्चि जगदम्बिकाम् वरदानोन्मुखीं देवीं प्रणनमरमहेश्वरीम् कोटिचन्द्रकला कान्तिं सुस्मितां परिपूज्य च तुष्टावभक्त्या सततम् इलाय्या पुंसकां जय देवी महादेवी भक्तानुग्रहकारिणि जय सर्वसुराराध्ये जया, सर्वसुरा जया गुणालये नमो नमस्ते देवेशी श्री शरणगतवत्सले जय दुर्गे दुःखान्त्रि दुष्टधैक्य निशोदिनी भक्तिगम्ये महामाये नमस्ते जगदम्बिके संसारतागरोत्तारे पोतिभूतपदाम्बुजे ब्रह्मादयोऽपि विबुधाय तत्पादाम्बुजसेवया विश्वसर्गस्थितिलय प्रभुत्वं समवाप्नुयुः प्रसन्ना भव देवी श्री चतुर्वर्ग पदायिनी कष्टां क्षमो देवि केवलं प्रणतोऽस्म्यहम् एवं स्तुता भगवती दुर्गा नारायणी परा भक्त्यावशिष्टमुनिना प्रसन्ना तत्क्षणादभूत् तदोवाच महादेवी प्रणतास्ति हरि मृणीम् स्तुद्युम्न भवनं गत्वा कुरु भक्त्या मदर्शनम् स्तुद्युम्नम् श्रावय प्रीत्या पुराणम् मत्प्रियङ्करम् देवी भागवतम् नाम नवाभोभिर्विजोत्तमश्रवणादेव सतम् पुंस्त्वम्बस्य भविष्यति इत्युक्त्वा च तिरोधानम् गच्छत स्म शिवेश्वरौ वसिष्ठस्ताम् निजं नत्वा समागत्याश्रमम् निजम् समाहूय च सुद्युम् देवालयाधर्मादिश आश्विनस्य सिते पक्षे सम्पूज्य जगदम्बिकाम् नवरात्रविधानेन श्रावयामास भूपतिम् श्रुत्वा भक्त्यापि सुद्युम् श्रीमद्भागवतामृतम् प्रणम्याभ्यर्चितम् गुच्च गुरुम् निरन्तरम् प्राजासने अभिषिक्तः मर्षिणा भुवंशसा च धर्मेण प्रजा चैवानुरञ्जयन् बीजे च विविधै यज्ञे सम्पूर्णवरदक्षिणैः पुत्रेषु राज्यं सन्दश्य प्राप देव्या स इति कथितमशेषं सेतिहासं च यदि पठति शुभक्त्या मानवो वा स ह्य सकलकामान् प्राप्य देव्या प्रसादात् परममृतमथान्ते याति देव्या श्लोकम् इति श्री स्कन्दपुराणे मानसखण्डे श्रीमद्देवी भागवतमाहात्मे देवी भागवत नवा श्रवणालीलाय पुंत्वा प्राप्ति वर्णनं नाम तृतीयोऽध्याय श्रीदेव्यार्पणमस्तु